श्रीमद्भागवत् महापुराणं दशमस्कन्धम् पञ्चसत्तमोऽध्यायः श्रीभगवानुवाच जन्मकर्माभिधानानि सन्ति तेऽङ्गसहस्रश न शक्यन्ते नुसङ्ख्यातुम् अनन्तत्वान्मयापि क्वचिद्जांसि विममे पार्थिवान्युर्जन्मभि गुणकर्माभिधानानि न मे जन्मानि कर्हति कालत्रयोपपन्नानि जन्मकर्माणि मे नृप अनुक्रमन्तु नैवान्तं गच्छन्ति परमर्षयः तथाप्यद्यतनयान्तनायङ्यङ्गजतो मम विज्ञापितो विरिंचेन पुराहं धर्मगुप्तये भूमिर्भारायमाणानाम् असुराणां छयाय च अवतीर्णो यदुकुले गृह आनकदन्दुभे वदन्ति वासुदेवेति वसुदेवसुतं कालने मिर्हत कंस प्रलम्बाद्यास सद्विष अयं च यवनो दग्धो राजंसे तिग्मचक्षुषा सोऽहं तवानुग्रहार्थं गुहामेतामुपागतः प्रार्थित प्रचुरं पर्वं तयाहं भक्तवत्सलः वरान्विणेश्वराजर्षे सर्वान् कामान् ददामि ते मां प्रपन्नो जन कश्चिन्न भूयोऽर्हति शोचितुम् श्रीशुकुवाच इत्युक्तस्तम् तृणम्याः मुचुकुन्दो मुदान्वितः ज्ञात्वा नारायणम् देवम् गर्गवाक्यम् अनुस्मरन् विमोहितोऽयं जन ईशमायया त्वदीया त्वां न भजन्त्यनर्थकुन्द्रे सुखाय दुःखप्रभवेषु सज्जते गृहेषु योषिन् पुरुषश्च वञ्चितः लब्ध्वा जनो दुर्लभमत्रमानुषं लब कथञ्चिदव्यङ्गमयत्नतो नघ त्वादारविन्दं न भजन्त सन्मते गृहान्धकूपे पतितो यथा पशू ममै स कालो जितनिष्फलो गतो राजस्योन्नद्धं मधस्य भूपते मर्त्यात्मबुद्धे सुतदारकोशभूष्वासज्यमानस्य दुरन्तचिन्तया कलेवरेऽस्मिन् घटकुड्यसन्निभे निरूढमानो नरदेव इत्यहं वितुरथे भास्वपदात्यनिकपैगां पर्यटं त्वा गणयन् सुदुर्मद प्रमद्यमुज्जैरिति कृद्यचिन्तया प्रविद्धलोभं विषयेषु लालसं त्वमप्रमत्तः सहसाभिपद्यसे छुल्ले लिहालो हिरिवाकुमन्तक पुरारे हेम परिष्कृतै शरन् मतङ्गजैर्वानरदेव सङ्गितः स एव कालेन दुरत्येन ते कलिबरोविण् किमि निर्जत्यति चक्रम् अभूत विग्रहो वरासनस्त सुमराजवन्दितः गहे सुमैथुन्यसुखे सुयोषितां क्रीडामृगपुरष ईश नीयते करोति करमाणि तपस्विनिष्ठितो निवित्तभोगं तदपेक्षया ददन् पुनश्च भूयेयमहं स्वराडिते प्रविद्धतरसो न सुखाय कल्पते तवापुवर्गे भ्रमतो यदा भवेज्जनस्य तर्ह्यच्युत सत्समागमः सत्सङ्गमो यर्हि तदैव तद्गतौ परावरे से जायते मति मन्ये मर्मानुग्रहीषते कृतो राज्यानुबन्धापगमो यदिक्षया यः प्रार्थते साधुभिरेकचर्यया वनम् विविक्षन् बिरखण्डभूमिपै न कामयेन्यन्तो पादसेवनाद् अकिञ्चनम् प्रार्थतुम् आद्वरं विभो आराधक स्वां हरे प्रणीत आर्यो वरमात्मबन्धनम् तस्मात् सिद्ध्यासिष ईश सर्वतो रजस्तमः सत्त्वगुणानुबन्धनाः निरञ्जनम् निर्गुणमद्वयम् परं त्वां व्याप्तिमात्रम् पुरुषं व्रजाम्यहम् चिरमिह वृजनार्तन्तप्यमानो नुतापै रवितृसडमित्रो लब्धशान्ति कथञ्चेन् शरणदसमुपेत त्वत्पदाब्जं परात्मन् अभयन्नभयन्मृतशोकं पाहि मापन्नमीश श्रीभगवानुवाच सार्वभौम महाराजमतिस्ते विमलोर्जिता वरैः प्रलोभितस्यापि न कामैर्विहितायतः प्रलोभितो वरे यत्त्वम् अप्रमादाय विद्यतन् न धीर्म्यक्ते न ना धिर्मयेक्कभक्तानाम् असिर्भिर्विद्यते क्वचि युञ्जानाम् अनां भक्तानां प्राणायामादिभिर्मनः दक्षिणवासनं राजन् पुनरुत्थितम् विचरस्वमहिं कामं मय्यावेशितमानतः अस्त्वैव नित्यदातभ्यं भक्तिर्मय्यनपायिरे ध्यातधर्मस्थितोजन्तुण्यविधिगियादिभिः समाहितस्तद्वथां जागृहं जयुघं मदुपासितः जन्मन्यन्तरे राजन् सर्वभूतः सुहृद्दमः भूत्वा जुजुवम्बरस्त्वं वै मामुपैशति केवलम् इति श्रीमद्भागवते महाप्राणे पारंशां शैतायां दशमस्कन्दे पुत्रार्थे मुचकुन्दस्तु तिरामैकपञ्चाशत्तमोऽध्यायः